विदिताखिलशास्त्रशुभाजलधे महितोपनिष कथितार्थनिधे हृदये कलये विमलं चरणं भवशङ्करदेशिकमे करुणा वरुणालय पालय मां भवसा गरदो कविदो न हृदं रचयाखिल दर्शनतत्त्वविदं भवशिकमे भवता जनता सुहिता भविता निगमोधवि चारणचारुमते करये स्वरदेवविवेकविदं भव शङ्कर देशिकमे शरणं भवे भवानिति मे यतचेतसि कौचुकिता मम वारयमोह महाजलधि भव शङ्कर देशिकमे शरणं सुकृतोधिकृते बहुधा भवतो कविता पददर्शनलालसता दीनमे अतिदीनमिमं परिपालय मां भवशङ्करेषिकमे शरणं जगतामवितुं कलिता कुतयो निचरन्ति महाम सच्छलत् अहिमान् सुरेवाद्रविभासि पुरो भव शङ्करदेशिकमे शरणं गुरुपुङ्गवपुङ्गवकेतरते सभतामयतां न हि कोऽपि शरणागत बसलत त्वनिदे शरणागत बसलत त्वनिदे भवशिकने शरणं विदिता न चरकाञ्चरमस्ति गुरो द्रुतमेव विधेहि कृपां सहदां भव शङ्कर देशिकमे शरणं भव शङ्करदेशिकमे शरणं भव शङ्करदेशिकमे